गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् एण्ड् नैन्टीन् क उवाच कलं च विकलं श्यालं देवसेनाविखादिनं निहदं वीरभद्रेण पर्वतेन महासुरं षडाननेन विकलं हदं तलप्रहारतः श्रुत्वा भद्रासनगदो नानावीरसमन्वितः प्रापसिन्धुर्महाचिन्तां स्मरञ्चिव सुदं तदा किं करिष्यदि देवोऽस्सौ नाशमिद्धं सुरद्विषाम् इत्येवं चिन्तयाविष्ठो मूर्च्छा मापमहत्तराम् वदा जग्मदुर्विभौ पुत्रावस्य महाबलौ धर्माधर्मौ भद्रपीठे जनकं वाक्यमाहदुः कथं बिभेषिजनकशिवाया अर्भकाल्लकोः न वाच्यां देहि दैत्येन्द्र हनिष्यावहः क्षणादमुं सम्मुखे तौ हतौ वीरौ मातुलौ नौ दिवं गतौ उत्तीर्णौ तौ स्वामिकार्ये कीर्तिं कृत्वा महतरां हत्वानेकविधां सेनां नानावीराय प्रपालिताम् आवामपि प्रयुध्या वो यावो हत्वारिपुं बलात् अथवा मोक्षमायावो निहतौ तेन चेद्रणे यावदावां हि जीवावश्चिन्तां तावश्चमा इन्द्रादय सुरगणाकारागारेधुना तव यदा त्वं विजिता पूर्वं पितरस्तत्र भवन के भवन् अनीवो मस्तकं तस्य रिपोस्तवन संशयः अन्यदा दर्शयिष्यावो मुखलोकेषु एवं तयोः समाकर्ण्यवचनं हर्षमाप्तवान् तावूजे परमं युद्धं प्राप्नुदं यश उत्तमं नाशयित्वा रिपुंकोरं यादं शीघ्रं ममान्तिकं एवमाकर्ण्य तद्वाक्य मी य नमस्कृत्य पितुः पादौ मा दुर्गृह्य तदाशिषः दशकोटिमिदां सेनाप्रत्येकं गृह्य सत्वरौ रथाश्वहस्तिपादादैर्नाना शस्त्रधरैर्युधां पत्तयोपि ययोर्हष्टा सिन्धुरारुणमस्तकाः गजना गिरीना धाध्वजा नाना नाशस्त्र पाणी गर्जद्भिमेखसदृश्यदीशो दश तद सेनाध्य गौच दुर् भ्रातरा उभौ नानालङ्कारसंयुक्तौ नानायुधधरा उभौ रत्नकाञ्चनसंयुक्त कुण्डलाभ्यां विराजितौ किरीडाभ्यां सुतेजोभ्यां भ्राजमानौ महाबलौ मुक्तामणिमयौहारौ बिभ्रन्दौ युद्धदुर्मदौ प्रापदूरणभूमिं तौ नानावादित्रनिःस्वनैः ददृशुर्वीरभद्राद्यास्तौ च तां वाहिनीमपि निघटेतौ समालोक्य मयूरेश आज्ञयाभिययोर्वीरभद्रोऽसौ च शटाननः हिरण्यगर्भः सङ्ग्रुद्धो भूतराजो विशालदृक् असङ्ख्यसेनया श्राद्धं ततो युद्धमवर्तत परस्परमयुभ्यन्तततः सेनाचरा भृशं घ्नन्तशिरांसि पादांश्च बाहूरूदरकन्दराः निहताश्च निहन्यन्ते तमसा चादिदेरवौ केचिच्चक्राणि मुमुजुर्भिण्डिपालांस्तथा परे बाणवृष्टिं परे चापि मल्लयुद्धं च तत्रासीत् सैनिकानां परस्परं एवं सा संहृदा सेना मयूरेशप्रपालिता पपाल तत्र शेषाय विह्वलाद्विशो दश ततः षडाननक्रुद्धो द्वादशायुधभूषितः तैरायुधर्जखानाशुस दैत्यपालिता कचिद बाघवो भिन्ना के मध्ये धाता किन्मस्तका करनाशिदा सेना हस्तश्वरथसकुला केऽपि स्वर्गं गदा केचिद्रूपं प्रापुषडाननं निरीक्ष्य ये मयूरेशं जहुःप्राणान् प्रसारिताः जग्मुस्तेतत्प्रसादेन निजधाम महाबलाः तद्दृष्टि पादात्तदथं नष्टम् सर्वं जनुकृदम् दृष्ट्वा विशाखविशिखैः निहताम स्वकाम् सेनां तस्य सुधौ धर्मो धर्म एव च युयुधादे बहुविधं शस्त्रैरास्त्रैशरव्रजैः चक्रदुर्मलयुद्धं तौ महा महासेन तत्क्षणाद तयोर्बलं निरीक्ष्यैव कार्तिकेयो महाबलः शिखयोस्तौ दधाराशु षट् बाहुषट्करैर्बलाद् भ्रमयामास बहुधा प्रोधयामास भूतले शतखण्डानि जादा जादानि दयोस्तु पततोर्भुवि जयं प्राप्ते शिवसुदेने दुर्वाद्यानि सर्वशः जयत्वं त्वं हि मयूरेश जगुः सैनिकाः चत्वारस्ते ययुर्देवं मयूरेशं निजं प्रभुम् आलि तु परस्परमधा ब्रुवन् प्राप्ता इव पुनर्जन्ममुदुस्ते परस्परं शशंसुसर्ववृत्तान्तं शिवायै च शिवाय च सेनां च निहदां सिन्धो पुत्रौ च बलवत्तरौ इति श्रीगणेशपुराणे क्रीडाखण्डे एकोनविंशोत्तरशततमोऽध्यायः ओम्